एकत्रिंशोऽध्यायः शौनकौ वाच कोपराधो महेन्द्रस्य कः प्रमादश्च सूतज तपसा वालखिल्यानाम् सम्भूतो गरुडः कथम् कश्यपश्यद्विजातेश्च कथम् वैपक्षिराट्सुतः अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् कथम् च कामचारी स खेचर एतदिच्छाम्यहम् श्रोतुम् पुराणे यदि पठ्यते सौतिर्वाच विषयोऽयम् पुराणस्य यन्माम् परिपृच्छसि शृणुमे वदतः सर्वमेतत् सङ्क्षेपतो द्विज यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः तत्रेध्मानयने शक्रो नियुक्तः मुनयो वालखिल्याश्च चान्ये देवतागणाः शक्रस्तु प्रलीनान् स्वेष्विवाङ्गेषु निराहारान्स्तपो क्लिष्यमानान् क्लिश्यमानान् गोष्पदे सम्प्लुतोदके तान् सर्वान् विस्मयाविष्टो वीर्योन् मत्तः पुरन्दरः अवहस्याभ्यगाच्छीघ्रम् लङ्घयित्वावमन्य च आरेभिरे महत् कर्म तदा चक्र कामेन तच्छृणु कामवीर्यः कामगमो देवराज भयप्रदः इन्द्रोऽन्यः सर्व देवानाम् भवेदिति यतव्रता इन्द्राच्छदगुणः शौर्ये वीर्ये चैव मनोजवः तपसो नः फलेनाद्य दारुणः सम्भवत्विति तद्बुद्ध्वा भृश देवराजस्य तक्रतुः जगाम शरणम् तत्र कश्यपम् संशितव्रतम् तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापते वालखिल्यानुपागम्य कर्म सिद्धिमपृच्छत एवमस्त्विति चापि प्रत्योचः सत्यवादिनः तान् कश्यप उवाचेदम् सान्त्वपूर्णम् प्रजापतिः अयमिन्द्रस्त्रिभुवने नियोगाद् ब्रह्मणः कृतः इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः न मिथ्या ब्रह्मणो वाक्यम् कर्तुमर्हथ सत्तमाः भवताम् प्रत्यूचुरभि सम्पूज्य मुनिश्रेष्ठम् प्रजापतिम् वालखिल्या ऊचुः इन्द्रार्थोऽयम् समारम्भः सर्वेषाम् नः प्रजापते अपत्यार्थं समारम्भो भवतश्चायमीप्सितः तदिदम् सफलम् कर्म चैव प्रतिगृह्यताम् तथा चैवम् विधत्स्वात्र यथा श्रेयोऽनुपश्यसि सौति उवाच काले तु देवी दाक्षायणी शुभा विनता नाम कल्याणि यशस्विनी तपस्तप्त्वा व्रतपरा स्नाता पुंसवनेषु चिः उपचक्राम भर्तारम् तामुवाचाथ कश्यप आरम्भः सफलो देवि भविता यस्त्वयेसितः जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ तपसा वालखिल्यानाम् लोकसम्भावितौ वीरौ कामरूपौ विहङ्गमौ शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यतः नैताभ्यां भविता दोषः सकाशात्ते पुरन्दर व्येतुते शक्रसन्तापस्त्वमेवेन्द्रो भविष्यसि न चाप्येवम् त्वया भूय एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् विनता चापि सिद्धार्था बभूवमुदिता तथा जनयामासपुत्रौ द्वा वरुणम् गरुडं तथा विकलाङ्गोरुणस्तत्र भास्करस्य पुरस्सरः पतत्रीणाञ्च गरुडमिन्द्रत्वेनाभ्यषिञ्चत तस्यैतत्कर्मसुमह इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकत्रिंशोऽध्यायः